त्यमूषु वाजिनं देवयूतं सहावानं तरु॒तारं रथानाम् अरि॑ष्टमेमिं ब्रतनायमाशु स्व॒स्तयेतार्क्ष्यमिहा हुवेमा श्यमूषु वाजिनं दे॒वयू॒तं सहावानं तरु॒तारं रथानाम् अरि॑ष्टमेमिं व्रतनायमाशु स्व॒स्तयेतार्क्ष्यमिहा त्यमूषु वाजिनं दे॒वयू॒तं सहावानं तरु॒तारं रथानाम् अरि॑ष्टमेमिं व्र॒तनायमाशु स्व॒स्तयेतार्क्ष्यमिहा हुवेमा